हरि ओम् श्रीसीतारामचन्द्राभ्याम् नमः अथ श्री अध्यात्मरामायणे अरण्यकाण्डे षष्ठसर्ग श्रीमदेव उवाच विचिन्त्यम् निशायां स प्रभाते रथमास्थितः रावणो मनसा कार्यम् एकम् निश्चित्य ययो ययोमारी च परम्पारम् मुदन्वतः मारिच तत्र मनिवत् जटावल्कलधारकः ध्यायन् हृदि परात्मानम् निर्गुणम् गुणभासकम् समाधि विलम्बे पश्यत् रावणम् गृहमागतम् कृतम् बुत्थाय चालिङ्ग्य पूजयित्वा यथाविधि मारिछो वाक्यमब्रवीत् समागमानमेतत् ते रथेनैकेन रावण चिन्तापरैवा भासि ब्रूहि कार्यं विचिन्तयन् ब्रूहि मे नहि गोप्यं चेत् कर्वाणि तव प्रियम् न्याय्यं चेत् राजेन्द्र वृजनं मां स्पृशन्न रावण उवाच अस्ति दशरथ साकेमना ज्येष सत्यपराक्रम विवास सुत वनम जन प्रिय भार्य सहित भ्रा लक्ष्मण नमंत सरास्ते विपिने घोरे पंचवट्याश्रम शुभे तस्य भार्या विशालाक्षि सीतालोकविमोहिनी रमो निरपराधान्मे राक्षसान् भीम विक्रमान् खरं च ह विने सुखमासेति निर्भयः भगिन्या शूर्पणाय निर्दोषायाश्च नासिका कर्णो चिच्छेदुष्टात्मा वने तिष्ठति निर्भयः अत त्वया साहाय्येन गत्वा तत्प्राणवल्लभाम् अनेष्यामि विपिने रहिते राघवेण ताम् तन्तु माया भूत्वा ध्याश्रमादपनेष्यसि रामं च लक्ष्मणं चैव तदा सीतां हराम्यहम् तन्तु मे कृत्वा स्थास्यसि पूर्ववत् इत्येवम्भाषमाणं तम् रावणम् वीक्ष्य विस्मितः केनेदमुपनिर्दिष्टं ते मूलघातकरं वच स एव शत्रुर्वध्य च यस्तन्नाशं प्रतीक्षते रामस्य पौरुषं स्मृत्वा चित्तमद्यापि रावण बालोऽपि मां कौशिकर्त्य यज्ञसंरक्षणाय आगत त्रिशुणैकेन पातयामास सागरे योजनानां शतं राम तदादि भयविवलः श्रुत्मा श्रुत्मा तदैवाहम् रामम् पश्यामि सर्वतः दण्डकेऽपि पुनरप्यहं वने पूर्ववैरमनुचिन्तयन् हृदि तीक्ष्ण शृङ्गमृगरूपमेकदा मादृशी बहुबीरावृतो व्ययाम् राघवं जनकजासमन्वितं लक्ष्मणेन सहितं त्वरान्वितः अगस्तोऽहम् अथरन्तु मुद्यत मां विलोक्य शरमेकमक्षिभत् तेन विद्धर्दयोहमभ्रमन् राक्षसेन्द्र पतितोऽस्मि सागरे तत्र भूत्यहमिदं समाजितः तानूर्जितमिदम् भितः रामम् एव सततं विभावये भीतभीतैव भोगराशितः राजरत्नरमणीरथादिकम् श्रोत्रयो यदि गतम् भयं भवेत् राम आगतैः शङ्कया बाह्यकार्यमपि सर्वमत्यजम् निद्रया परिवृतो यदा सपि राममेव मनसानुचिन्तयन् स्वप्नदृष्टिगतराघवम् तदा बोधितो विगतनिद्र आसीत् तद्भवानपि विमोच्य चाग्रहम् राघवम् प्रतिगृहम् प्रयति भो रक्ष राक्षसकुलं चिरागतम् तत्मृतो सकलमेव नश्यति तव वदतो मम परिगृहान् परात्मनिराघवे त्यज विरोधमतिं भय भक्तित परमकारिणको रघुनन्दनः अहम् अशेषमिदं मुने वाक्यतो अश्विवर्मादियुगे परमेश्वरः ब्रह्मणार्थितौ उवाच तं हरिः किं तवेप्सितमहं करवाणि तत् ब्रह्मणोक्तमरविन्दलोचन तं प्रयाहि भुवि मानुषं वपु दशरथात्मज भावमञ्जस जहिरिपुं दशकन्धरं हरे अतो न मानुषो राम साक्षात् नारायणोऽव्ययः मायामानुष वेषेण वनं निर्भयः भूफार हरणार्थाय गच्छ तात्र गृहम् सुखम् श्रुत्वा मारी च वचनम् रावणः प्रत्यभाषत परमात्मा यदा रामः प्रार्थितो ब्रह्मणा किल मां हन्तुम् मानुषो भूत्वा यत्नादिह समागतः करिषति यचिरा देव सत्यसङ्कल्प ईश्वरः अतोऽहं यत्नत सीताम् आनेष्याम्येव राघवात् वधे प्राप्ते रणे वीर प्राप्स्यामि परमं पदम् यद्वा रामं ऋणे हत्वा सीतां प्राप्स्यामि निर्भयः तदुत् तदुत्तिष्ठ महाभाग विचित्र मृग रूप धृ रामम् स लक्ष्मणम् शीघ्रम् आश्रमादतिदूरतः अक्रम्य गच्छ त्वम् सुखम् तिष्ठ यथा पुरा अतः परं चेद् यत्किञ्चित् भाषसे मद्विभीषणम् अनैषाम्यासिनानेन सामत्रैव न संशय मार्च सर्वज शु स स्वात्मन्ये वा अन्वचिन्तयत् यदि माम् तदा मुक्तो भवान्वत् माम् हन्यादिति चेत् दुष्ट निरयो धुवम् इति निश्चित्य मरणम् रामादुत्थाय वे गतः रावणम् राजन् करोमि याज्ञां तव प्रभो इत्युक्तार्थमास्थाय गतो रामाश्रमम् प्रति शुद्ध जाम्बून लाख्यो मृगो भू द्रव्युकः रत्नशृङ्गो मणिखुरो नीलरत्न विलोचनः विद्युत्प्रभो विमुग्धास्यो विचचार वनान्तरे रामाश्रम पदस्यन्ते सीता दृष्टिपथे चरन् चनन। क्षणं च धावयत्यवतिष्ठते क्षणम् समीपमागत्य पुनर्भयावृत एवं स मायामृगवेश रूपधृ चचार सीतां परिमोहयन् इति श्रीमदध्यात्मरामायणे उमामेश्वरसंवादे अरण्यकाण्डे षष्ठ सर्गः श्रीसीतारामचन्द्रार्पणमस्तु